आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः काञ्चनम् कवचम् बिभ्रत् प्रत्यदृश्यत फाल्गुनः सार्कः सेन्द्रायुधतडित् ससन्ध्य इवतो यदः ततः प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः एष शीलवताञ्चापि शीलज्ञाननिधिः परः इत्येवं तु मुलावाचः शृण्वत्याः प्रेक्षकेरिताः कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत् तेन शब्देन महता पूर्णश्रुतिरथा ब्रवीत् धृतराष्ट्रो न विदुरं हृष्टमानसः क्षतः क्षुब्धार्णवनिभः किमेष सुमहास्वनः सहसैवोत्थितो रङ्गे भिन्दन्निवनभस्तलम् विदुर उवाच एष पार्थो महाराज फाल्गुन पाण्डुनन्दनः अवतीर्ण स कवचस्तत्रैषसुमहास्वनः धृतराष्ट्र उवाच धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते थारणिमुद्भूत स्त्रि पांडव वह वैशंपाएन उवाच तस्म प्रमुदी रंगे कथि प्रत्युपस्थिते दर्शयामा सबीभत्सुराचार यात्राघव